चाणक्यनीति अध्यायं सेवन्टीन् पुस्तकप्रत्ययाधीतं नाधीदं गुरुसन्निधौ सभामध्ये न शोभन्दे जारगर्भा इव स्त्रियः कृते प्रतिकृतिं कुर्याद्धिंसने तत्र दोषो न पतति दुष्टे दुष्टं समाचरेत् यद्दूरं यद्दुराराध्यं यच्च दूरे व्यवस्थितं तत्सर्वं तपःसाध्यं तपो हि दुरधिक्रमं लोभश्चेदगुणेन किं यद्यस्ति किं पादकैः सत्यं चेत्तपस्सा च किं शुचिमनो यद्यस्ति तीर्थेन किम् सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः सद्विद्या यदि किं धनैरपयशो यद्यस्तिकिम् किं मृत्युना पीतारत्नकरो यस्य लक्ष्मीर्यस्य सहोदरा शङ्खो भिक्षाडनम् कुर्यान्न दत्तमुपतिष्ठते अशक्रस्तु भवेत्साधुर्ब्रह्मचारी वा निर्धनः व्याधितो देवभक्तश्च वृद्धा नारी पतिव्रता नानोदकसमं दानं न ना समा न गायत्र्याः परो मन्द्रो परं तक्षकस्य विषं दन्ते मक्षिकायास्तु मस्तके वृश्चिकस्य विषं पुच्छे सर्वाङ्गे दुर्जने विषम् पत्युराज्ञाम् विना नारी स्युपोष्यव्रतचारिणी आयुष्यम् हरदे भर्तुः सा नारी नरकं व्रजेद न दानैशुध्यते नारी नोपवासशतैरपि न तीर्थसेवया तद्वद्भर्तुः पादोतकैर्यथा पादशेषं पीदशीर्षं सन्ध्याशीर्षं तथैव च श्वानमूत्रसमं तोयं पीत्वा चान्द्रायणं चरेद दानेन पाणिर्नदु कङ्कणेन स्नानेन शुद्धिर्नदु चन्दनेन मानेन तृप्तिर्नदु भोजनेन ज्ञानेन मुक्तिर्नदु मुण्डनेन नापि तस्य गृहे क्षौरं पाषाणे गन्धलेपनम् आत्मरूपं जले पश्यन् शक्रस्यापि श्रियं फरेत् सद्यप्रज्ञा करीवचा सद्यशक्रिभरा नारी सद्यशक्रिकरं वयः परोपकरणं येषां जागर्तिहृदये सदां नश्यन्ति विपतस्तेषां सम्पदस्युः पदे पदे यदि रामा यदि चरमा यदि तनयो विनयगुणो भेदः तनये तनयो सुरवर नगरे तनयोत्पत्तिः सुरवरनगरे किमाधिक्यम् आहारनिद्राभयमैथुनानि समानि चैतानि नृणां पशूनां ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पश्युभिः समानाः दानार्थिनो मधुकरा यदि कर्णतालैर्दूरीकृताः दूरीकृता दूरी करिवरेण मदान्तबुद्ध्या तस्यैव गण्डयुग्मण्डनहानिरेषा भृङ्गाः पुनर् विकचपद्मवने वसन्ति राजा वेश्या यमश्चाग्निस्तरो बालया चकौ परदुःखं न जानन्ति अष्टमोऽग्रामकण्टकः अधः पश्यसि किं पदिदं तव किं भुवि रे रे जानासि गतं तारुण्यमौग्रिकम् व्यालाश्रयापि विफलापि शकण्डकापि वप्रापि पङ्किलभवापि दुरासदापि गन्धेन बन्धुरसिकेतकि सर्वजन्तोरेको गुणः खलु निहन्ति समस्तदोषान् इति चाणक्यनीतिदर्पणः सम्पूर्णः ओम्